अथ नटराजपति मधुरदशकम् अङ्गम् मधुरं ररम् मधुरं अम्बा मधुरा हास्यम् मधुरम् इन्दुर्मधुरः इहा मधुरा नटराजपतेरकिलम् मधुरं। उदरम् मधुरम् उक्षा मधुरः उरुर्मधुरः कण्ठो मधुरः मधुरा गमणं मधुरम् नटराजपतेरम् मधुरम् गङ्गा मधुरा गात्रम् मधुरम् गोष्ठी मधुरा घर्मो मधुरः चर्म मधुरम् चलितम् मधुरम् नटराजपते रकिलम् मधुरम् चलितम् चि मधुरा जङ्घे मधुरे जटा मधुरा डका मधुरा तन्दुर् मधुरा नटराजपते रकिलम् मधुरम् तिलकं मधुरम् मधुरम् तुष्टिधुरा देवा मधुरा नयनं मधुरम् नृतम् मधुरम् नटराजपतेरखिलम् मधुरम् पत्नी मधुरा पाणिर्मधुरः पादौ मधुरौ पीठम् मधुरम् भोक्त मधुरम् भक्ता मधुरा भसितं मधुरम् नटराजपतेरम् मधुरम् भ्रमितं मधुरम् मधुरा मूतिर्मधुरा रूपम् मधुरम् वचनं मधुरम् बलितं मधुरम् नटराजपतेरखिलम् मधुरम् वसनं मधुरम् वह्निर् मधुरा शान्तिर् शिष्यौ मधुरौ सर्पा मधुरा सुप्तम् मधुरम् नटराजपतेरखिलम् मधुरम् हसितं मधुरम् हृदयं मधुरम् क्षेत्रं मधुरं न्याली मधुरः ज्ञाता मधुरः ज्ञानं मधुरम् ज्ञेयं मधुरं नटराजपतेरखिलं मधुरम्